कदाचित् महामुनिः व्यासः यमुनानद्यः अन्यतीरं गन्तुम् इष्टवान् अतः सः नौकायाः प्रतीक्षां कुर्वन् नदीतीरे स्थितवान् आसीत् तावता काश्चन गोप्यः दुग्धं नवनीतं च गृहीत्वा तत्र आगताः ताः अपि नौकायाः प्रतीक्षां कुर्वत्यः बहुकालपर्यन्तं स्थितवत्यः परन्तु नौका नागता ततः निराशाः गोप्यः व्यासं पृष्टवत्यः महामुने कापि नौका नागता एव इदानीं किं करवाम इति व्यासः उक्तवान् चिन्ता मास्तु अहं भवती नदीं पारयामि परन्तु नौकायाः प्रतीक्षां कृत्वा कृत्वा अहं शान्तः अस्मि मम महती बुभुक्षा जाता अतः भवत्यः किमपि यच्छन्ति इति गोपीनां सकाशे प्रत्यग्रं दुग्धं नवनीतं च आसीत् ताः तस्मै ततः किञ्चित् किञ्चित् दत्तवत्यः ततः व्यासः गोपीभिः दत्तं सर्वं खादितवान् परन्तु यमुनायाः पारगमनविषये किमपि न उक्तवान् तदा ताः गोप्यः पृष्टवत्यः महर्षे यमुनायाः पारगमनस्य का कथा इति व्यासदेवः किञ्चित् अग्रे आगत्य करौ योजयित्वा नदीम् उद्दिश्य प्रार्थनां कृतवान् हे यमुने यदि अहम् अद्य किमपि न खादितवान् तर्हि तेन महिम्ना भवती नदी जलस्य तथा विभागद्वयं करोतु येन वयं सुखेन अन्यतीरं तीरं गन्तुं शक्नुयाम् इति तदा यमुना भागद्वयेन विभक्ता जाता तन्मध्ये कश्चन मार्गः अपि दृष्टः एतत् सर्वं द्रष्टवतीनां गोपीनां महदाश्चर्यं सञ्जातं ताः मनसि एव वि चिन्तितवत्यः यत् किञ्चित् कालात् पूर्वम् अयं मुनिः अस्मान् दुग्धं नवनीतं च याचित्वा खादितवान् किन्तु अधुना वदति मया किमपि न खादितमिति यमुनापि तस्मिन् विश्वसितवती कथम् एतत् शक्यम् इति एवं चिन्तयन्त्यः गोप्यः एतस्य रहस्यं व्यासदेवम् एव पृष्टवत्यः तदा महामुनिः उक्तवान् भवत्यः मह्यं दुग्धं नवनीतं च अवश्यं दत्तवत्यः परन्तु अहं तत्सर्वं न खादितवान् अपि मम हृदये स्थितः भगवान् खादितवान् इति पुनरपि सः एव उक्तवान् मनुष्यः कर्म करोति एव परं तत् कर्म ब्रह्मार्पणबुद्ध्या न करोति यदि सः तथा करोति तर्हि तस्य कर्मणः बन्धनं न भवति कर्म सः कर्मरहितः भवति एतदर्थं दृढविश्वासस्य महती आवश्यकता यदि दृढ़ विश्वास अस्त अलसाधनयांत गोप्य विस्मता अभवं